नवग्रहसूक्तम् श्रीगुरुभ्यो नमः हरिः ॐ आसत्येन रजसा वर्तमानो न वेशयन्नामृतं वर्त्यं च हिरण्येन सवितारथिना देवो याति भुवना विपश्यन् अग्निं दूतं विडीमहे होतारं विश्ववेदसम् अस्य यज्ञस्य सुक्रतुमम् एषा बीशे पशुपतिः पशूनां चतुष्पदामुतच्च द्विपदाम्ब निष्क्रीतोऽयं यज्ञं भागवेतु राजस्पूषा यजमानस्य सन्तु कृद्रुद्राय प्रतीतसे मेढुष्टमाय तव्यसे वोचेम शन्तमागम्भृते ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॐ आप्याय श्वसमेतू ते विश्वतः सोमभिष्टिम भवाबाजस्य सङ्गते अप्सुस्में सोमो अब्रवीन्तर्विश्वानि भेषयाम् अग्निं च विश्वशम्भुव मापस्य विश्ववेशजी गौरीं म्याजं सलिलाने तच्छत्यैकपदि द्विपदी सा चतुष्पदी अष्टापदी नवपदी बभूव श्री सहस्रा अक्षरा परमे व्योमन्न ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॐ अग्निर्मुर्धा दिवकुत्पतिः पृथिव्या अयम् अपागं रयिता गंसे जिन्वती सोना पृथिवी भवान्नक्षरा निवेशति यच्छा न सर्वसम्प्रथा आह क्षेत्रस्य पतिना वयगं हि तेनैव जयामसि पोषयित्वा स नो विडाति ॐ अधिदैवता प्रत्यधिदैवता सहिताय अङ्गारकाय नमः ॐ उद्बुद्ध्य स्वाग्ने प्रतिजागृह्ये न मिष्टा पुरते सकं सजेथामयं च इदं विष्णुविचक्रमे समूढमस्य पागं सुरे विष्णोरराटमसि विष्णो ओः पृष्टमसि विष्णोः ॐ अधिदैवता प्रत्यधिदेवता बुधाय नमः ॐ बृहस्पते अतीयदर्यो अर्हा आ दद्यो मद्दिभाति क्रतुमज्जनेषु यद्य दयच्छव सर्त प्रजात सदस्मासु द्रविणं धेयि चित्रम् इन्द्र मरुत्व पाहि सोमां यथा से अपि वत्सुतस्य तव प्रणीति तव सुसर्मसन्ति कवयसु यज्ञाः ब्रह्म यज्ञानां प्रथमं पुरस्ताद्वसीमतस्तु रुचो वेण आवहम् समुज्ञया उपमा ॐ अधिदेवता प्रत्यधिदेवता सेताय बृहस्पतये नमः ॐ प्रभुग्राय भानुवे मरध्वम् अभ्यं मतिं चाग्नये सुपूतं मानुषां जनो अन्तर्विश्वानि विद्मना जिगाति शुक्रं ते अन्यद्यजतं ते अन्यद् सुरूपे अहरिं दौरिवासि विश्वाहि माया अवसि स्वधावो भद्राति पूषण्डिहरातिरस्तु इन्द्राणीमाशु नारिषु सुपत्नी महमस्रवम् न यस्या अपरं च न जरसा मरते पतिः इन्द्रं वो विश्वतःपरि हवामहे जने एभ्यः अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॐ देवी देवीरभिश्च आपो भवन्तु पीतये एोरभि स्रवन्तु नः समग्निरग्निं भिस्करच्छन्नं तपतु सूर्य संवातो वा त्वरपाम् प्रजापते प्रजापतेर्न त्वदेतान्यो विश्वाजातानि परिताबभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयर्ग श्याम पतयोरयीणाम् इम यमप्रस्तरमाहि शीताङ्गिरोभिः पितृभिः संविधानः आ त्वा मन्त्रा आह कविशस्ता वहन्त्वेन राजन्हविषा मादयश्व ॐ अदितेविता प्रत्यदिदेविता सैताय सन्नैश्वराय नमः ॐ कयानश्चित्र आभूवधूति सदा मृधस्तखा कयां सचेक्षया वृताम् आयङ्गौः प्रस्थिरक्रमेदसन्मान्तरं पुनः पितरं च प्रयन्सुसुवां यद्धे देवि नृतिरामबन्धदाव ग्रीवास्त्वविचर्त्यम इदं ते तद्व्यस्यां ज्यायुषो नाम मध्यादथा जीव पितुमध्ये प्रमुक्तः ॐ अधिदेविता प्रत्यधिदेवता सैताय राहवे नमः ॐ केतुं केतवे पेशो मरिजा अपेशते ए समूसद्भिरजायथां जायथाह जाय ब्रह्मादेवाना आम् पदवीकवीनां ऋषिविप्राणां महिषो मृगाणा आम् शेनोग्रन्धानागं रदितिरुवनानागं सोमः पवित्रमत्कीर्तिरेमन् सवित्र चित्रं चितियन्तमस्मै चित्रच्छत्र चित्रतमम् वयो धाव चन्द्रम् रयिम् पुरुवीरम् बृहन्तं चन्द्रचन्द्राभिर्गुणते युवस्व ओम् अधिदेविता प्रत्यधिदेविता सहितेभ्यः केतुभ्यो नमः ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः हरि ॐ तस्सन् श्रीरामकृष्णार्पुणमस्तु